Ooh um, स्मज देवाङ्गच्छेयं चतुर्विगुं श्रयात्रमपश्यत्तमाहवो वै तस्मैश्ववाता गच्छत् पुरोधाञ्जलेश्चतुर्भिगं श्रीरात्रमासतेश्वरोधाञ्जोगौराजुत्र्याः भवन्ति ज्योतिरन्तरिक्षङ्गौरसा लोकानध्यारो हन्त्यभिन्त्यसत्रं वादे तद्दछन्दो मयच्छन्दो मा भवन्ति पृष्ठैरवरुन्धो छन्दो मयिरोजो वैवेर्यं पृष्ठानि पशवस्थन्दो मा भोजस्येव वेर्य पशुशकृतिष्ठन्ति ध्यायन्ति यं वा ृहदाभ्यामेव यंजसोऽ प्रतिष्ठन्ते वै यज्ञस्यार्गं लोक चतुर्विंशतिरात्र भवति चतुर्विंशतिरर्धमासाः संवत्सरस्सं वत्सरस्वर्गो लोकसंवत्सहजेवसु वर्गे लोके प्रतिष्ठन्त्यसौ चतुर्विंशत्यक्षलागायत्रे गायत्रे ब्रह्मवत्सङ्गायत्रिवब्रह्मवत् रात्र अधिका भवतो ब्रह्मलक्षसस्य परिगृहेद्यै यथा वै मनुष्यायैवन्दे मा अग्र आसन्ते गामयन्तामर्तिं वा आत्मानं मृत्युमपहत्य दैवेगं सघं सदं गच्छेमेतं चतुर्विगं सजरात्रमपश्यन्तमाहरन्तेनायन्तर्तिं वात्मानं मृत्युमपहत्येयं सगं सदनगच्छ निजय सश्चतुर्विगं सजरात्रमासगेवमेव पात्मानमपहत्य श्रियं गच्छन्ति श्री दैवी सगंस भवति सुवर्गस्य लोकस्यानुक्षा वृष्यश्च अर्धमासा ऋतरः प्रविश्य दैवीकं सकं सदमगच्छणय देवं विद्वानं सष्टिंसतिरात्रमासते संवत्सदमेव प्रविश्यवश्च सेकं सकं सदं गच्छन्ति त्रयस्तयस्त्रिपुंसा अवस्ताद्भवन्ति त्रयस्तयस्त्रिपुंसा त्येवेकं सदं सदं गच्छन्ति पृष्ठानि हि वैवें सज्जायस्त्रयस्त्रिंशान्ध्ये मादानिं सुवर्गन् वृञन्ति छन्दो मा सत्रं जयमता एव पृष्ठैरवरुन्धदये पशुञ्छन्दो मे रोजो वै एजं पृष्ठानि पशुवच्छन्दो मा बोधस्येव विजयश्रच्छन्ति त्रयस्त्रयस्त्रिंसाद्भवन्ति त्रयस्त्रयस्त्रिंसा परस्तान् मध्ये पृष्ठाञ्जरो वै त्रयस्त्रिपुंसा आत्मा पृष्ठान्यात्मन एवः शर्म नह्यन्ते न ैज्ञस्याः दसा जने सुवर्गम् लोयन्ति पराः चो वार्गम् लोकमभ्यारोहन्ति ते पराचीनानि पृष्ठान्यत्या ृतमुपयन्ति स्तोमा नागुं सम्प्रत्यै प्रभावायज्योतिरग्नि स्तोमो भवत्ययं वाक्षयोस्मा देवते नक्षया नर्विगुं सतिरात्र भवति चतुर्विगुं सतिरर्धमासा संवत्सरस्संर्गस्वर्गे तिष्ठम् यथो चतुर्मिकम् सत्यक्षरा गायत्री गालयत्री ब्रह्मवर्तसम् गायत्र्यैव ब्रह्मवर्तसमवलुम्भयति धात्राभितो भवतो ब्रह्मवर्तसस्य वृक्षा वा यमलोमगासेक्षामयतौषधे गर्वनस्पतिभिः प्रजाय जेति सैता स्त्रिवंशपटुंवरात्रिरवश्चयमौषधे गर्वनस्पतिभिः प्रजायमास्यस्तता आसीरन् प्रैवजायन्ते प्रजया पशुभिरयं वा क्षुध्यक्षयितां विराजमानस्यमात्मन्धित्वाद्यमवारुन्धौषधेर्वनस्पति त्वात्र भवति सुवर्गस्य लोकस्यानुख्यात्रैपृष्ठ्यृष्ठानि पृष्ठैरेव एव प्रचतिष्ठन्ति त्रयस्त्रिपुंसा त्रयस्त्रिपुंसमुपजन्ति यज्ञस्य सन्तत्या अथोपति त्रयश्विगुंशः प्रजापतिमेवारभन्ते प्रतिष्ठिते त्रिणव भवति विदित्वा एकविगुंस भवति प्रतिष्ठित्वा अथोरुचमेवात्मन्दधते त्रिवृत्ते आत्मानमेव ते न निर्दहन्ते चौदेजो त्रिवृत्ते च दैवात्मन्दधते पञ्चदश न्द्रस्तोमो भगवतीन्द्रियमेवावरुन्धते सप्तदश भवत्यन्नाद्यस्याते न जायन्त एकविदुंस भवति प्रतिष्ठित्वा अथोरुचमेवात्मन्दते चतुर्विगुंस भवति चतुर्विपुंसर्थमासा संवत्सरस्सं वत्सरस्वर्गो लोकसं वत्सर एकसु वर्गे लोके प्रतिष्ठन् अथो एष वैपिशोवाणवि ुपयन्ति संवत्सरेव प्रतिष्ठाय देवता अध्यावोहं तु त्रयस्त्रिगुं सा त्रयस्त्रिगुं समुपयन्ति त्रयस्त्रिकुं सद्वै सुवर्गं वा मयन्दिवोर्ध्वालुप्तास्तोमा भवन्ति सुवर्गं वा भयो कल्पत त्रिपुंसरेतास्त्रिपुंसदक्षरा विजारम् विराग् विराजैवान्नाद्यमवरुन्धते चिगा लभितो भवतोन्नाद्यस्य परिगृहेत्य प्रजापतिस्वर्गं लोकमेत्तं देवायेन येन छन्दसा न प्रां च तेन पञ्चजयता ध्वात्रिगुंसुरपश्यं द्वात्रिगुं सदक्षरानुष्पुः स्वेनैव छन्दसा प्रजापतिमाप्त्वाभ्यारुह्यसुवर्गं लोकमा जनजैनं विद्वानं स जयता आसते द्वात्रिगुं स जयता द्वात्रिमुं ैव छन्दसा श्रियं गच्छन्ति श्रीमनुष्य वर्गो लोको द्वात्रिपुंशदेवा द्वात्रिपुंशदक्षरा नष्टुद्वालु सर्वामेवनुवन्ति सर्वे वाचोपदिता भवन्ति सर्वे श्रिरं गच्छन्तिर्गौराजरित्र्यः भवन्ति इरं वा भज्योतिरन्तरिक्षं गौरसा वादिमानेव लोकानध्यारोहन्त्यभि पूर्वं त्रिः भवत्य पूर्वमेवर्गन् लोकमभ्यारोहन्ति बृहज्याभ्यामेव यं जसो नैव प्रतिष्ठन्ते देवै यज्ञस्यायनी श्रीताभ्यामेव सुर्गं लोकयन्ति पराः चो वा एतेषु वर्गं लोकमभ्या ये पराजस्त्रियः न भयन्ति प्रत्यङ् प्रत्यंसदेतास्तासायास्त्रिपुंसत्रिपुंसक्षरा विरान् विराजैवान्नाद्यमवरुन्धते ये द्वे अहोरात्रे सुभाग्यं लोके गन्ते रात्र देवावदेव सत्रयेद्वादशाह श्रीमत्त्रयस्त्रिगुं शदहश्चय एवं विद्वानुं शस्त्रयस्त्रिगुं शदहमासते साक्षादेवं विद्वानुं शस्त्रयश्रिगुं शदहमासतेवर्तन्ते जो वा एता देवाग्रहाता हरे गस्ता प्रवाहुकार्जुवनय ृणानि भवन्ति लोगादेष्वेव लोकेषु प्रतिष्ठन् यशो त्रीणि वै यज्ञस्ये हेन्द्रिया निन्येवावरुन्धते विश्वनि भवत्यन्नाद्यस्यावरुद्धे सर्वपृष्ठो भवति सर्वस्याभिषित्रैवाद्वै द्वादशाहो यत्पुरस्ताः द्वादशाहमुपेदुवनाः ताम्बाचमुपेदुरुबाधुरे स्यादुपरिष्टाद्वादशाहमुपयन्त्याप्तामेव वाचमुपयन्ति तस्मादुपरिष्टाद्वाचावदामो वान्तरं वैदश रात्रेण प्रजावयश्च प्रजा असृजत यद्दश रात्रो भवति प्रजा एव तद्यज मामासृजन्त एवां हमा उदङ्कशौर्वायनः सद्रद्यमुवाच यद्दशरात्रो यद्दश रात्रो भवति सद्र्यसौ देव पूर्व ैवैषा शान्त्य वा जयता रात्रयोमाना विश्वजित्सहारि रात्रेणपोर्वाश्व रात्रेणोत्तराश्रोडशज विद्वाकं शस्त्रयस्त्रिकं सदहमासदायहाका प्रजातः परिगृहे त्या अकामयन्त सुवर्गम् वाकमि यामेते सुवर्गम् वागण् प्राजानन्न सुवर्गम् वागमायन्तलेखकम् शत्रिकम् शद्रात्रमपश्यन्दमाहरन्दो वैदेशवर्गम् वागम् स्वर्गं लागमाजिनयदेवं विद्वां सन्द्रं सन्द्रात्रमासते सुवर्गमेव मा भगवन्ति तेन शत्रन्द पृष्ठेन वरुम्भते छन्दो मैरो पृष्ठानि प्रसवछन्दो मात्रिगुं शद्रात्रभवति क्षत्रियुं शतक्षर्वा बृहदिवार्हताः पसवा बृहत्यैव पशो नवरुम्भते बृहदि छन्दसामाश्न्यताश्नुवते स्वाराज्यं यदेवं षट्त्रिकम् षद्रात्रमासदेव भाग्यमेव लोकयम् जतिराग्राधि भवतः स्वर्गस्य लोकस्य परिगृहे त्वे हतपुत्र गामयत विन्देज प्रजामभिसौ दासान् भवेदमिति सजेतमेकस्मान्न पञ्चाशमो विन्दत प्रजामभिसौ दासान् भवद्यं विद्वागिंस जकस्मान्न पञ्चाशमासते विन्दन्ते प्रजामभिद्वायुयान् भवन्ति त्रयस्त्रोष्टो मा भवन्ति वज्रस्यैवं सगुं सग्निष्यन्ति दश पञ्चदशा भवन्ति ृष्ठानिलक्षन्ति द्वादशैव अथो वज्रमे ैषणाः स्विनानि भवन्ति मृत स्तद्यते कस् न पञ्चाचतिरिक्तास्तद्य भूयसीरष्टा चत्वारि विंशत प्राजायपदे प्रजाकामाः पशुकामास्युस्तजेतान् प्रैन्ते प्रजया पशुख वै राजोवायषयज्ञोकस्मान्नं विद्वांसदेकस्मान्नभिराजमेव गच्छन् भवन्त रात्रातोन्नाद्यस्य परिगृहेत्यै याले काष्टकायान् वाजेतासदि साक्षादेवष्टकायान्ते संवत्सरस्याभिदे न्दनामाना फल फल्गुणयो नमासे क्षेरं मुखं वा दे तत्संवत्सरस्य फल्गुणैवोर्णमास ैव संवत्सरमारभ्य दीक्षन्ते तस्यैव निर्यायत्सामेवान् सम्पद्यते चित्रापूर्णमासे देह क्षेरं मुखं वादे तत् मुखतजैव संवत्सरमारभ्य दीक्षन्ते तस्य न काचन निर्याधवति चतुरः पुरस्का पौर्णमास्ये म्पद्यते तेनैवाष्टकान्न कुर्वन्ति सम्पद्यते पूर्वपक्षम् वा साभिसम्पद्यन्ते ते पूर्वपक्षमुत्तिष्ठन्ति तानुतिष्ठतवोषो नोत्तिष्ठन्ति तान्तुल्याणि कीर्त्येनोत्तिष्ठत्यमे सर्वे वा धनुवन्ति स्वर्गं दे दे दे दे दे दे वा देते लोकं यन्ति ले सत्रमुपयन्त्यभिम्भदेव देक्षाभिरात्मानग्यस्तपयन्तपसद्भिर्द्वाभ्यां लोमापद्यन्ति द्वाभ्यां त्वं सृङ्गाभ्यामायुं संगाभ्यामस्थिद्वाभ्याः मज्जानमात्मदक्षिणं वै सत्रमात्मानमेव दक्षिणान् नीत्वा सुवर्गं लोकयन्ति शिखामनुप्रपन्तरध्या अथोरघे रागंसस्वर्गमजा ब्रह्मवादिना वदन्त्यति रात्रः परमो यज्ञक्रतोनां तस्मात् तं प्रथममुपजन्त्येत्येतद्वा अग्निष्टोमं प्रथममुपजन्त्यथोथ्यमथ षोडशि न मथातिरात्रमनुपूर्वमेवैतद्यज्ञकृतो न वेद्यता नालब्ध्यपरिष्य सोममेवैतत्पिबन्त आसते ज्योतिष्टोमं प्रथममुपजन्ति ज्योतिष्टोमो मुखं स्तोमान् वियुञ्जते सग्रस्तुताभिराजमभि सम्पद्यन्ते द्वे चर्चापतिरिच्येते गजास्सु वर्गो वै लोकोज्यो वर्गमेव तेन भोगय्यन्ति रथम् तरम् दिवा भवतिरथम् तरम् नत्तमित्याहुर्ब्रह्मपादिनष्टेन नत्त तदजामीति सौभरं देग ब्रह्म सामम् बृहत्तन्मध्यतो दधति विधित्यैजेनाजामे ज्योतिष्टोमं प्रथममुपयन्त्यस्मिन्नेव तेन लोके प्रतितिष्ठन्ति गोष्टोमं द्वितीयमुपजन्त्यन्तरिक्षदेवतेन प्रतितिष्ठन्त्युष्टोमं त्रितीजमुपयन्त्यमस्मिन्नेव तेन लोके प्रतितिष्ठन्तीजम्वारुज्योतिरन्तरिक्षम् गौरसायदेतान् सोमानुपजन्त्येष्वेवटं लोगेषु सत्रिणः प्रतिष्ठन्तो यन्त्ये सग्निस्तुताभिसम्पद्यन्ते द्वे चर्चापतिरित्येते एक एकजागौ रतिरिक्तये कजामस्सुवर्गोभि लोगोज्यो जगोर्विराडोर्जमेवावरुन्धयते न क्षुधार्तिमाच्छन्त्यक्षोधुका भवन्ति क्षुत्संवाधादिवहि सत्रिणोमापुतः प्रभीता मुख्यामध्ये भ्यं तत्तदेतत्परिहद्देव चक्रं यदेतेन षडहे न यन्ति देवचक्रमेव समारोहन्ति तिष्ठीते स्वस्ति समस्न्यवत् षडहे न यन्ति षड् भारत वर्तुष्वेव प्रतितिष्ठन्ति लोके प्रतितिष्ठन्तो यन्ति द्वौ षडहौ भवदस्तानि द्वा सम्पद्यन्ते द्वादशो वै पुरुषो द्वे शाख्यौ द्वौ आत्मा च शिरश्चत्वारिङ्गानिस्तनौ द्वादशौ तत्पुरुषमनुपरियावर्तन्ते त्रयश्रणः प्रवन्दितान्यष्टादशानि सम्पाद्यन्ते प्रतिष्ठितः संवत्सर इति खलु वार्षीरान्प्रतिष्ठा मेषस्त्वापचतैरव लो तु लोहितग्रे पश्चाले शल्मजलवृद्ध्या पर्णो ब्रह्मणा रक्षो मेधे न्यग्रोधश्च मसैरुदुम्बर गोर्जागारत्री सन्दोभिस्त्रिवृत्स्तोमैरवन्ते स्थावन्तेऽस्त्वावन्तु प्रियन्त्वा प्रियाणाम् वरिषिष्ठमाप्यानाम् निधीनान्त्वा निधिमहेमसो मम कोप्या भस्वाः कोल्याभ्यस्वाः विदर्याः भस्वाः पट्याः भस्वाः कन्याः भस्वाः ह्रद्याभ्यस्वाः सूर्या भस्वाः सरस्याः जस्वाः देशन्ते भस्वाः वल्ब्वल्या भ्यस्वाहा स्थावराभ्यस्वाहादेभ्यस्वाः सैन्धवेभ्यस्वाः सुमुद्र्याभ्यस्वाहा सर्वाभ्यस्वाहा अध्यस्वाः वहन्ते भ्यस्वाः परिवहन्ते ज्यस्वाः सुमन्तम् वहन्ते भस्वाः शीघ्रम् वहन्ते भ्यस्वाः शिभम् वहन्ते भस्वाहो ग्रम् वहन्ते भ्यस्वाः भीमम् वहन्ते भस्वाहाम्भोः भ्यस्वाहा नहोः भ्यस्वाहा महोः भ्यस्वाः सर्वस्मै स्वाहार्वन्दन्तम् जिघातुम् सजितमभ्यमेजिवरुणः अरामत्तः परश्वा अहम् च त्वम् च वृत्रहसम्बभूवसनिभ्यः अराती वासिद्रिवो नु नौ शोरवगुंसदै भद्रा इन्द्रस्य रातयः अभिक्रत्वेन्द्रभूरधज्मन्नदे विव्यम् महिमानगुम् रजागुंसि स्वेणाभिकृत्र किं शवसा जघन्धनशत्रुवन्तम् निवि दद्युधादे नमो राज्ञै नमो मरुणा जनमोऽश्वा जनमः प्रजापतज नमोऽधिपतयेऽधिपतिरस्त्यधिपतिम् मा कुर्वधिपतिरहम् प्रजानाकृता यस्वाहा लब्धा जस्वाहा हुताजस्वाहा भूर्वातोऽभिवादूस्रा हुता ऊर्जस्वती रोषधीरादिशन्ताम् दीपस्वतेर्जीवधन्याः पिबन्तभसाय भद्वतेरुद्रमिडा यास्वरूपा विरूपायाश उपायासामज्ञयष्ट्या नामा निवेद या अङ्गिरसस्तपसेहचक्रुस्ताभ्यः पर्जन्यमहिषम् अयच्छा या देवेश तनुवमैरजन्तया सा अस्मभ्यम् पयसा पिन्वमाना प्रचावतीरिन्द्रगोष्ठे निरीहि प्रचावतर्मह्यमेतार रामो विश्वेः देवैः दृढः संविधानः शिवाः सति रूपमा कस्तासाम् वजम् व्रजदासकम् सदेम हे हृदेष्वा स्मितासेत् बृहद्वयः किस्मितासेत्सेत्पि यौरासेत् पूर्वजित्तिरश्वसे बृहद्वयः रात्रिकासेत्सेत्पिला कस्मि कालेशुनः भयकथम् सूर्यदे काले चरति चन्द्रमाजाय हे पुनः अर्देजम् भूमिरावनम् महत् पृच्छामि त्वा परमन्तम् पृथिव्याः पृच्छामि त्वा भुवनस्य नाभिम् पृच्छामि त्वा विष्णो अश्वः सरेतः पृच्छामि वाचः परमम् व्योम वेदिमाहुः परमन्तम् सोममा हृकृष्णो अश्वस्य वेतो ब्रह्मै बवाचः परमम् व्योम अम्बे अम्बादम्बिके न मा नयति कश्चन सत्यश्वकः सुभगे काम्बीनवासिनिसुवर्गे लोगे सम्प्रोर्णवाथानजानि गर्भधमा त्वमजासि तौ सह चतुरः पदः ेतोनो य आसाम्बि लावनः प्रियस्त्रीणामपीच्यः य आसाम् कृष्णे लक्ष्मणि सर्दिकृतिम् वरावधीत् अम्बे अम्बाल्यम्बिगे न माजति कश्चन ससत्यश्कः मूर्ध्वामे नामुच्छ्रजता द्वे भारम् गिराविव मथास्त्यामध्यमेधतागुंशीते वा ते पुमन्निव अम्बे अम्बाल्यम् लिके न मालभति कश्चन ससस्त्यश्वकः यद्धरिणीरमत्रिणपुष्टम् पशुमन्यते शूद्रालिल्यचाराणबोषालधनायति अम्बे अम्बाल्यम्बिके नमाजभदिकश्चन ससस्त्यश्वगः इजम् यकाशकुन्दिकाहलनि सर्पति आहलम् गभे पसौ निजङ्गुलीतानिका अम्बे अम्बाल्यम्बिके नमाजभदि कश्चन ससस्यगः माता चे पिता चेघ्नम् वृक्षस्य लोहदः रुसुलामीरिते निता गभे मुष्टिमथगुंसयत् निश्चण्मालकारिषञ्जुष्माश्वस्य वाजिनः स्वभिनाङ्कागरत्र महायोगुंशितारिषत् आबोधिष्ठामजोभुवस्तान पूर्जैरधातना महेरणाय चक्षसे योगः शिवनमोलसस्तस्य भाजय तस्मा अयङ्गमामगोलस्य क्षया आपो जनयथा <प्णाँ> जनः भोद्भुरः सुरङ्ग्रस्त्वाञ्जन्तु गायत्र न छन्दसारुद्रास्त्वाञ्जन्तु प्रेष्टुभे न छन्दसारिद्यास्त्वाञ्जन्तु जागते न छन्दसा जग्तो अपोगमजेन्द्रस्य तनुवम् प्रिया एतद्ग्रस्तोतरेतेन पथा पुनहरश्वमावर्तयासिनः गव्यात मतद्य प्रजापते युंजं ब्रध् मूषंजस्थुष रोचंद्रे रोचना दिवजंत्य काम्यापक्षसारसे शोणाधुषो निर्वाहसा केतु गण केतबे पेशो मरिया पेशसेसे सुष्भिजाथ णायस्वाः व्यानायस्वाः पानायस्वाः स्नावभ्यस्वाः सन्धानेभ्यस्वाः परिसन्धानेभ्यस्वाः पर्वभ्यस्वाः सन्धाने जस्वाः शरीरेभस्वाः लग्नायस्वाः दक्षिणाभ्यस्वाः स्वर्गाजस्वाः लवगायस्वाः सर्वस्वे स्वाहा सिता रस्वाः सिता रस्वाः विहिता रस्वाहानुभिहिता यस्वाहा युक्तारस्वाहा युक्ता रस्वाः सुयुक्ता रस्वाहोद्युक्ता रस्वाः विमुक्ता रस्वाः प्रमुक्ता रस्वाः वञ्चते स्वाहा परिवञ्चते स्वाहा संवञ्चत स्वाहानुवञ्चते स्वाहोद्वञ्चते स्वाहा यते स्वाहा धाव स्वाहा तिष्ठते ऐ स्वाहा